षष्टितमोऽध्यायः वैशंपायन उवाच उपोह्यमाने द्युते तु सर्व एवते ते धृतराष्ट्रम् पुरस्कृत्य विविशुस्ताम् भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः नाति नातिप्रीतेन मनसा भारत ते द्वन्द्वशः पृथक् चैव सिंहग्रीवामहौजसः सिंहासनानि भूरिणि चित्रानि च भेजिरे शुशुभे सा सभाराजन् राजभिस्तैः समागतैः देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः प्रावर्ततमहाराज सुहृद्युतमनन्तरम् युधिष्ठिर उवाच अयम् बहुधनो राजन्सागरावर्तसम्भवः मणिर्हारोत्तरः श्रीमान् कनकोत्तमभूषणः एतद्राजन्ममम धनम् प्रतिपाणोऽस्ति कस्तव येन मान्त्वम् महाराजधनेन प्रतिदीव्यसे दुर्योधन उवाच सन्ति मे मणयश्चैव धनानि सुबहूनि च मत्सरश्च न मेऽर्थेषु जयस्वैनम् दुरोदरम् वैशम्पायन उवाच ततो जग्राहशकुनिस्तानक्षानक्षतत्त्ववित् जितमित्येव शकुनिर्युधिष्ठिरमभाषत इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि द्यूतारम्भे षष्टितमोऽध्यायः